गरुडपुराणम् आचारकाण्डम् अध्यायम् सिक्स्टी नैन् सूत उवाच द्विपेन्द्रजीमोदवराहशङ्खमत्स्याहि शुक्त्युद्भववेणुजानि मुक्ताफलानि प्रदितानि प्रदिदानि तेषां च शुक्त्युद्भवमेव भूरि तत्रैव चैकस्य हि मूलमात्र निवेश्यते रत्नपदस्य जातु वेद्यं तु शक्रयुद्भवमेव तेषाम् शेषाण्यवेद्यानि वदन्ति तज्ज्ञाः त्वसारनागेन्द्रदि त्वसारनागेन्द्रतिमिप्रसूदम् यच्चङ्खजं यच्च वराफजादम् प्रायो विमुक्तानि भवन्दिभासा शस्तानि माङ्गल्यतया तथापि यां या मौक्लिकानाहमिह जादयेष्ठौ प्रकीर्तिदा रत्नविनिश्चयत्नैः कम्बूद्भवम् तेष्वधमम् प्रदिष्टमुत्पाद्यते यच्छ गजेन्द्र कुम्भात् विदुल्यवर्णं। चविदुल्यवर्णम् शाङ्गम् बृहल्लोलफलप्रणामम् बलप्रमाणम् उत्पद्यते वारणकुम्भमद्यादापिधवर्णम् प्रभयापिहीनम् एकम् भवः शङ्खप्रवरस्य गोत्रे मदङ्गजाश्चा विविशुद्धवंश्यास्ते मौक्तिकानां प्रभवा प्रदिष्ठाः उत्पद्यदे मौक्तिगमेषु वृत्तमापीतवर्णम् पाठेन पृष्ठस्य समानवर्णं मीनात्सु वृत्तं लघुचादिसूक्ष्मम् उत्पद्यदेवारिचरानेषु मत्स्याश्चेदे मध्यचरा पयोधेः वराहदंष्ट्राप्रभवम् प्रदिष्टं तस्यैव दंष्ट्राङ्गुरतुल्यवर्णम् क्वचित् कथञ्चित् स भुवप्रदेश्ये प्रजायते सूकरवद्विजिष्ठः वर्षोपलानां समवर्णशोभम् त्वसारपर्वप्रभवम् प्रदिष्ठम् देवेण वो दिव्यजनो बभोग्ये स्थाने मीनविशुद्धवृत्तम् संस्थानदोऽत्युज्ज्वलवर्णशोभं नितान्तधौदप्रविकल्पमाननित्रिंशधारासमवर्णकान्ति प्राप्यादिरत्नानि महाप्रभाणि राज्यं श्रियं वा महदीं दुरावाम् तेजोन्विता पुण्यकृतो भवन्ति मुक्ता फलस्याहि शिरो भवस्य जिज्ञासया रत्नधनम् विदिज्ञै शुभे मुहूर्ते प्रयतैः प्रयत्नाद रक्षाविधानं सुमफद्विधाय हर्म्योपरिष्ठम् क्रियदे यदा तद तदा महादुन्दुभिमन्द्रघोषैर् विद्युल्लता विस्फुरितान्तरालैः पयोधराक्रान्तिविलम्बिनम्रैर्दनैर्वैराव्रीयदेन्दरिक्षम् न दम्भुजङ्गा न दुयादुधाना न ना व्याधयो नाप्युपसर्गदोषाः हिंसन्दि यस्याहि शिरःसमुद्धम् मुक्ताफलं तिष्ठदि कोशमध्ये नाभ्यदिमेकप्रभवम् धरित्रीम् विप्रगदम् तद्विबुधा हरन्ती अर्चिप्रभानावृतदिग्विभागमादित्य वदधुःख तेजस्तिरस्कृत्य हुदाशनेन्दुनक्षत्रतारा समग्रम् दिवा यथा दीर्तिम् परं तथैव तमोऽवगाढास्वपितन्निशासु विचित्ररत्नद्युदि चारुतो युसमुद्रा भरणोपपन्ना मूल्यम् न वा स्यादिति निश्चयो मे सुवर्णपूर्णा हीनोऽपियस्तल्लभदे कदाचित् विपाकयोगान् महदशुभस्य सा पत्न्याहीनां समहीं समग्रां भुनक्रि तत्तिष्ठति यावदेव न केवलं भाग्यै प्रजानामपि जन्म परिद तद्योजनानां परिदसहस्रं सर्वानर्थान्विमुखीकरोति नक्षत्रमालेव दिवो विशीर्णा दन्दा बलिस्तस्य महासुरस्य विचित्रवर्णेषु विशुद्धवर्ण पयसु पत्यु पयः साम्पपाद सम्पूर्णचन्द्रांशुकलापकान्तेर्मणिप्रवेकस्य महागुणस्य तच्छुक्रिमत्सुस्थितिमाप बीजमासन्पुराप्यन्यभवानि यानि यस्मिन् प्रदेश्येऽम्बुनिधौ पाद सुचारुमुक्ता मणिरत्नबीजम् तस्मिन् पयस्तोयधरावकीर्णं शुक्रौ स्थितं मौक्लिकदामवाप सैं हलिकपारलौकिकसौराष्ट्रिकताम्रपर्णपारशवाः कौबेरपाण्ड्यपाडकेमकमिथ्याकरास्त्वष्टौ शक्त्युद्भवम् नादिनिकृष्टवर्णम् प्रमाणसंस्थानगुणप्रभाभिः उत्पद्यते वर्धन पारसीकपादाललोकान्तरसिंहलेषु चिन्त्या न तस्याकरजाविशेषा रूपे प्रमाणे च यदेद विद्वान् न च व्यवस्थास्ति सर्वत्र सर्वा हृदयो भवन्ति ये दस्य शुक्तिप्रभस्य मुक्तफलस्य चान्येन समुन्मितस्य मूल्यं सहस्राणि दुरूपकाणां त्रिभिः सदैरप्याधिकानि पञ्च जन्माशकार्धेन ततो तत्पञ्चभागद्वयहीनमूल्यम् यन्माशकां स्त्रीन् बिभ्रयात् सहस्रे द्वे तस्य मूल्यम् परमम् प्रदिष्टम् अर्धाधिकौ द्वौ वसतोस्य द्विमाशकोन्मानिदगौरवस्य शदानि अधिदानि मूल्यम् अर्धाधिकम् माशकम् मुन्मितस्य समम् च विंशतृदयम् शदानाम् गुञ्चाश्च षट् धारयतः शते द्वे मूल्यम् परम् तस्य वदन्ति तज्ज्ञाः अद्य अर्धमुन्मानपकृतम् शतम् स्यान्मूल्यम् गुण्णैस्तस्य समन्वितस्य यदि षोडशभिर्भवेदनूनं धरणम् तत् प्रवदन्ति दार्विकाख्यम् अधिकम् दशभिश्शतम् च मूल्यम् समवाप्नोत्यपि बालिशस्य हस्तात् द्विगुणैर्दशभिर्भवेदनूनं धरणम् तद्भवकम् वदन्ति तज्ज्ञाः नवसप्तति माप्नुयात्स्वमूल्यं यदि न स्यात् गुणसम्पदा विहीनं त्रिंशदाधरणं पूर्णं शिक्यं तस्य दिकीर्त्यदे चत्वारिंशत् भवेत् तस्याः परं मूल्यं विनिश्चयः चत्वारिंशद्र भवेत् तस्यास्त्रिंशन्मूल्यं लभेत् पञ्चाशत्तु भवेत् सोमस्तस्य मूल्यं तु विंशति षष्टिर्णिकरशीर्षं स्यात् तस्या मूल्यं स्या चतुर्दश अशीतिर्नवधिश्चैव कूप्येति परिकीर्तिता एकादशस्यान्नवच तयोर्मूल्यमनुक्रमाद आदाय सकलमेव ततोऽन्नभाण्डं जम्भीरजादरसयोजनया विपक्रम् कृष्टं तदो मृदुतनूकृतपिण्डमूलैकुर्याद्यथेष्टमनु मौकृगमाशुविद्धम् मृलिप्तमत्स्यपुडमध्यगदम् तु कृत्वा पश्चात्पचेत्तनुतश्च बिडालपुट्य दुग्धे तदपयसितं विपचे सुधायां पक्वं तदोऽपिपयसा शुचिचिक्रणेन शुद्धं तदो विमलवस्त्रनिकर्षणेन स्यान्मौ क्रीधं विपुलसद्गुणकान्ति उक्तं व्याडिर्जगाद जगदं हि महाप्रभां वत्सिद्धो विदग्ध परया दयालुः श्वेतकाच समं तारं हेमांशदयोजितं रसमध्ये प्रधार्येद मौक्रिकं देहभूषणम् एवं हि सिंहले देशे कुर्वन्ति कुशला यस्मिन् कृधिमस्सन्देह क्वचिद् भवति मौक्ीके उष्ने स स्नेहे निशां तद्वासये जले भ्रीहिभिर्मर्दनीयं वा शुष्कवस्त्रोपवेष्टितं यत्तुनायादिवैवर्ण्यं विज्ञेयं तदकृत्रिमं सिदं प्रमाणवत्स्निग्धं गुरुस्वच्छं सुनिर्मलं त्यजोऽधिकं सुवृत्तं च मौक्तिकं गुणवत् स्मृतम् प्रमाणवद्गौरवरश्मियुक्तम् सिदं सुवृत्तं समसूक्ष्मवेधम् अक्रे दुरप्यावहति प्रमोदम् यन्मौक्तिगं तद्गुणवत्प्रतिष्ठम् एवं समस्तेन गुणोदयेन यन्मौक्तिगं योगमुपागतं स्याद न तस्य भर्ता रमनर्थजात एकोऽपि कश्चित् समुपैदिदोषः यदि श्रीगारूढे महापुराणे आचारकाण्डे मुखता फलप्रमाणादिवर्णनं नाम मुक्ता फलपरीक्षा नामैकोन न सप्ततितमोऽध्यायः ओम्